दिव्यमादाम्बराय नमः ॐ दिव्यगन्धानुलेपनाय नमः ॐ सर्वाश्चर्यमयाय नमः ॐ अनन्तदेवाय नमः ॐ विश्वतोमुखाय नमः ॐ युगपदुत्थितसहस्रसूर्यभाषे नमः एकस्तु प्रविभक्तकृत्स्नजगते नमः ॐ प्रणतधनञ्जयभाषिताय नमः ॐ स्वदेहदृष्टब्रह्मादये नमः ॐ अनेकबाहवे नमः ॐ अनेकोदराय नमः ॐ अनेकवक्त्राय नमः ॐ अनेकनेत्राय नमः ॐ अनन्तरूपाय नमः ॐ सर्वतोदृष्टाय नमः ॐ अदृष्टान्तमध्यादये नमः ॐ विश्वेश्वराय नमः ॐ विश्वरूपाय नमः ॐ किरीचिने नमः ॐ गदिने नमः ॐ चक्रिणे नमः ॐ सर्वतोदीप्ततेजोराशये नमः ॐ दुर्निरीक्षाय नमः ॐ दीप्तानलार्कद्युतये नमः ॐ अप्रमेयाय नमः ॐ अक्षराय नमः ॐ परवेदितव्याय नमः ॐ विश्वनिधानाय नमः ॐ अव्ययाय नमः शाश्वतधर्मगोप्त्रे नमः ॐ सनातनपुरुषाय नमः ॐ आदिमध्यान्तरहिताय नमः ॐ अनन्तवीर्याय नमः ॐ अनन्तबाहवे नमः ॐ शशिसूर्यनेत्राय नमः ॐ दीप्तहुताशभक्त्राय नमः स्वतेजस्तप्तविश्वाय नमः ॐ महर्षिस्तुताय नमः ॐ विस्मितरुद्रादिवीक्ष दिवीक्षिताय नमः ॐ महारूपाय नमः ॐ बहुदंष्ट्राकरालरूपाय नमः ॐ नभःस्पृशे नमः ॐ दीप्ताय नमः ॐ अनेकवर्णाय नमः ॐ व्यत्ताननाय नमः ॐ दीप्तविशालनेत्राय नमः ॐ पार्थभीकरदर्शनाय नमः ॐ दंष्ट्राकरालमुखाय नमः ॐ जगन्निवासाय नमः ॐ व्याप्तदावापृथिव्यन्तराय नमः ॐ व्याप्तसर्वदिशे नमः ओम् उग्ररूपव्यथितलोकत्रयाय नमः ॐ सुरसङ्घाभिष्टाय नमः ॐ भीष्मादिप्रविष्टवक्त्राय नमः ओम् दशनान्तरलग्नयोधमुखमुख्याय नमः ॐ दशनचूर्णितजनोत्तमाङ्गाय नमः ॐ वक्त्राभिमुखविद्रुतनरलोकवीराय नमः ॐ ज्वलद्व उग्रस्तसमस्तलोकाय नमः ॐ उग्रतेजप्रतप्तसमस्तजगते नमः ॐ उग्ररूपाय नमः ॐ देववराय नमः ॐ अप्रज्ञातप्रवृत्तये नमः ॐ कालाय नमः ॐ लोकक्षयकृते नमः ॐ प्रवृद्धाय नमः ॐ लोकसमारुतिप्रवृत्तये नमः ॐ प्रत्यनेकस्तयोधसंहर्त्रे नमः ॐ सव्यसाचीसमुत्थापकाय नमः ॐ भीतभीतकिरीटिप्रणताय नमः ॐ अर्जुनाभिष्टुताय नमः ॐ रक्षोभयङ्कराय नमः ॐ सिद्धसङ्गनमस्कृताय नमः ॐ गरीयसे नमः ॐ ब्रह्मकर्त्रे नमः ॐ जगन्निवासाय नमः ॐ आदिदेवाय नमः ॐ पुराणपुरुषाय नमः ॐ विश्वनिधानाय नमः ॐ पृष्टनो नमस्कृताय नमः ॐ सर्वतो नमस्कृताय नमः ॐ सर्वस्मै नमः ॐ वेक्त्रे नमः ॐ वेद्याय नमः ॐ विश्वव्यापकाय नमः ॐ अनन्तरूपाय नमः ॐ वायवे नमः ॐ यमाय नमः ॐ अग्नये नमः ॐ वरुणाय नमः ॐ शकाय नमः ॐ प्रजापतये नमः ॐ प्रपितामहाय नमः ॐ सहस्रकृत्वप्रणताय नमः ॐ पूर्वे नमस्कृताय नमः ओम् अनन्तवीर्याय नमः ॐ अमितविक्रमाय नमः ॐ व्याप्तसर्वस्वरूपाय नमः ॐ अज्ञातमहिम्ने नमः ॐ प्रमादावद्रुतसखिभावाय नमः ॐ प्रमादावहसाहिताय नमः